अथ षट्षष्टितमः सर्गः तमग्निमिव संशान्तमम्बुहीनमिवार्णवम् गतप्रभमिवादित्यम् स्वर्गस्थम् प्रेक्ष्य भूमिपम् कौसल्याबाष्पूर्णाक्षी विविधम् त्यक्त्वा राजानमेकाग्रानुशंसे दुष्टचारिणि विहायमाङ्गतो रामो भर्ता च स्वर्गतो मम विपथे सार्थहीनेव नाहम् जीवितुमुत्सहे भर्तारम् तु परित्यज्य का स्त्री दैवतमात्मनः इच्छेजीवितुमन्यत्र कैकेय्यास्त्यक्तधर्मणः न लुब्धो दोषान् किम् पाकमिव कुब्जा निमित्तम् कैकेय्या राघवाणाम् कुलम् हतम् अनियोगेन युक्तेन राज्ञा रामम् विवासितम् सभार्यम् जनकः श्रुत्वा परितप्स्यत्यहम् यथा समामनाथाम् विधवान्नाद्यजानाति धार्मिकः रामः कमलपत्राक्षो जीवन्नाशमितो गतः विदेहराजस्य सुता तथा चारुतपस्विनी दुःखस्यानुचिता दुःखम् वने पर्युद्विजिष्यति न दताम् भीमघोषाणाम् निशासु मृगपक्षिणाम् निशम्यमाना सन्त्रस्ता राघवम् संश्रयिष्यति वृधश्चैवाल्पपुत्रश्च वैदेहीमनुचिन्तयन् शोकसमाविष्टो नौनम् त्यक्ष्यति जीवितम् साहमद्यैव दृष्टान्तम् गमिष्यामि पतिव्रता इदं शरीरमालिङ्ग्य प्रवेक्ष्यामि हुताशनम् ताम् ततः सम्परिश्वज्य विलपन्तीम् तपस्विनी व्यपनिन्युः सुदुःखार्ताम् कौसल्याम् व्यावहारिकाः तैलद्रोण्याम् तदामात्याः संवेश्य जगतीपतिम् राज्ञः सर्वाण्यथादिष्टाश्चक्रुः कर्माण्यनन्तरम् न तु राज्ञो विना पुत्रेण मन्त्रिणः सर्वज्ञाः कर्तुमीशुस्ते ततो रक्षन्ति भूमिपम् तैलद्रोण्याम्शायितन्तम् सचिवैस्तु नराधिपम् हा मृतोऽयमिति ज्ञात्वा स्त्रियस्ताः पर्यदेवयन् बाहूनुच्छ्रित्य कृपणा नेत्रप्रस्रवणैर्मुखैः रुदत्यः शोकसन्तप्ताः कृपणम् विहीनाः सत्यसन्धेन किमर्थम् विजहासिनः कैकेय्या दुष्टभावाय राघवेण विवर्जिताः कथम् सपत्न्या वत्स्यामः समीपे विधवा वयम् स हिनाथः प्रभुरात्मवान् वलम् रामो श्रीमान् विहाय नृपतिश्रियम् त्वया च वीरेण विना व्यसनमोहिताः कथम् वयम् निवत्स्यामः याच विदूशिताः ययाच राजा रामश्च लक्ष्मणश्च महाबलः सीतया सह संत्यक्ता साकमन्यन्नहास्यति ता बाष्पेण च संवीता शोकेन विपुलेन च यचेष्टन्तनिरानन्दा राघवस्य वरस्त्रियः निशा नक्षत्रहीनेव स्त्रीव भर्तृविवर्जिता पुरी नाराजता योध्याहीना राज्ञा महात्मना बाष्पर्याकुलजना हा हा भूतकुलाङ्गना शून्यचत्वर वेष्मान् ता न शोका त्रिदिवम् न राधिपे महीतलस्थासु सर्वाङ्गनासु च निवृत्तचारः सहसा गतो ऋते तु पुत्राद्दहनम् महीपतेर्नारोचयन्स्ते सुहृदः समागताः इतीव तस्मिन् शयनेऽन्यवेशयन् विचिन्त्य राजानमचिन्त्य दर्शनम् गतप्रभाद्यौरिव भास्करम् विना महात्मना कण्ठास्त्रकण्ठा नराश्च नार्यश्च समेत्य सङ्घशो विगर्हमाणा भरतस्य मातरम् तदा नगर्याम् नरदेव सङ्क्षये बभूपुरार्ता न च शर्मलेभिरे इत्यादर्षे आदिकाव्ये अयोध्याकाण्डे षट्षष्टितमः सर्गः